देविभागवद्वादशस्कन्ध नारद्वाच भगवन् सर्वधर्मज्ञ सर्वशास्त्रविशारद श्रुतेस्मतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतं सर्वपापहरं देव येन विद्या प्रवर्तते केन वा ब्रह्मविज्ञानं किं नो वा मोक्षसाधनं ब्राह्मणानां गतिकेन केन वा मृत्युनाशनम् अहिकामस्मिकफलं केन वा पद्मलोचन वक्तुर्मर्हस्य शेषेण सर्वं निखलमादितः श्रीनारायण उवाच साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वया लघृणुवक्ष्यामि यत्नेन गायत्रष्टसहस्रकम् नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम् षष्टादौ यद्भगवता पर्वं प्रोक्तं ब्रवीमिते अष्टोत्तरसहस्रस्य ऋचिर्ब्रह्मा प्रकीर्तितः छन्दो नुष्टुप् तथा देवी गायत्री देवता स्मृता हलोऽपि जानीतस्यैव स्वराशक्तैरिता अन्यासकरणन्यासा उच्येते मातृकाक्षरैः अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै रक्तश्वितारण्यं नीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तां रक्तनवस्रजं मणिगलैर्युक्तां कुमारीमिमां गायत्रीं कमलासनां परतलव्यानद्धकुण्डलाम्बुजां पद्माख्यं च वरस्रजं च दधतिं हंसाधिरूढां भजे अचिन्त्यलक्षणाव्यक्ताप्यर्थ मातृ महेश्वरी अमृतार्णवमध्यस्थाभ्यजिता चापाब् च पराजिता अणिमादिगुणाधाराण्यर्प्यर्कमण्डलसंस्थिताम् अजराजा पराधर्मा अक्षसूत्रधराधराम् अकारादीक्षकारान्तापि अरिषण्र्गभेदरे अञ्जनाद्रिप्रतीकां साप्यञ्जनाद्रि निवासिले अदितेश्चाज पावद्याप्यरविन्दलिभीक्षणा अन्तर्वहिषिता विद्या ध्वंसनी चान्तरात्मिका अजावासाप्यरविन्दी ब्रह्मानना अर्धमात्रार्सदानज्ञाप्यरिमण्डलमर्दि असुरघ्ने ह्यमाववास्याप्लभ्युक्ष्मेजार्चिता आदिलक्ष्मी चादिशक्तीकराकृती चायुञ्जतानना आदित्यपदवीचाराप्यादित्यपरिसेविता आचार्यावर्तनाचाराप्यदीन्मृतिनिवासिरे आग्नेयी चामरी चाद्याचाराद्या चाशनसिता आधारनिलि आधारा चाकाशान्तः निवासिरे आद्याक्षरसमाहयुक्ता चान्तराकाशरूपिणी आदित्यमण्डलगता चान्तरद्वान्तनाशिरे इन्दिरा चेष्टदा चेष्टा चेन्द्रीवर्णीभीक्षणा ईरावती चेन्द्रां चेन्द्रपदा चेन्द्राणि चेन्द्रिरूपिणी इक्षुको दण्डसंयुक्ता चे सुसन्धानकारिणे इन्द्रलीलसमाकारा चेडापिङ्गलरूपिणी इन्द्राक्षी चेश्वरी देवी चेहात्रैर्विवर्जिता उवाचोषा षडुल्लिभां उर्वारुकफलाननाम् उरुप्रभा चोर्मती शडुं शूपुण्डुपां षडूमध्यगा ऊर्ध्वं चाप्यर्धुकेशी चाप्युर्ध्वाधो गतिभेदनी उरुषबाहुप्रिया चोर्म मालावाग्रन्थदायिनी ऋतं चां चरषे ऋतुमती नमस्कृता ऋग्वेदारीण हन्त्री च ऋषिमण्डलचारिणी लुतारी लुतार संभूता लूतादीवी एका चैकमात्र चैका चैकैकन निषदा ऐन्द्री हेरावतारूढ़ा चाही कामूष्मिका ओंकारा श्योषधी चोताच्योत प्रोत निवासी औरल प्रदा अंडमध्यस्थिता दी चाहकार मनि कात्यायिनी कालरात्रि कामाक्षी कामसुन्दरि कमला कामिनि कान्ता कामदा कालकण्ठिनी करिकुम्भस्तनभरा करवीर सुवासिनी कल्याणी कुण्डलवती कुरुक्षेत्रनिवासिनी कुरविन्दादलाकारा कुण्डली कुमुदालया कालजिह्वा करालाशा कालिका कालरूपिणी कमनीया गुणा कांति कलाधारा का कुमुद्वती कौशी कमलाकारा कामचार प्रभंजने कौमारी करुणांगी ककुमंता कलिप्रिया केसरी केशवनता कदम्बा कुसुम प्रिया, प्रिया। काी कालिका कांची कलशोद्भव संसुता काम मृतमती कामूपा कृपावती कुमारीकुण्डनिलया किराती किरवाहनां कैकेयीकुकिलापाल्लापाकेतकी कुसुमप्रिया कमण्डलुधम् का धरा काली कर्मनिर्मूलकारिणी कलहंस का गतिकक्षा कृतकौतुकमङ्गला कौसूरी तुलकाकमरा करीन्द्र गमनाकुह कर्पूरलेपना कृष्णा कपिलाकुहराश्रया कूधरा काम कमरा कु कक्षिस्थाखिलवा खडग खेटकी खड्गवाहना खट्वांगधारिणी ख्या खगराज परसिता खलग्निखंडित खंडाख्या प्रधाय खंडेन्दुतिल का गंगा गणेश गुह पूजिता गायत्री गोमती गीता गांधारी गाड़ लोल् गौतमी गामिनी गाधा गन्धर्वाप्सुरसेविता गोविन्दचरणाकाङ्क्रान्ता गुणद्रयविभाविता गन्धर्वी गह्वरी गोत्रा गिरीशा गहनागवे गुहावाशा गुणवती गुरुपापप्रणाशिने गुर्वी गुणवती गुह्या गोतव्या गुणदायिनी गिरिजा गुह्यमातङ्गी गरुणध्वजलम्भवां वल्लभाम् गर्वापहारिणि गोदा गोकुलस्था गदाधरा गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिरे घर्मदा घनदा घण्टा घोरदानवमर्दिरे घृमन्त्रमयी घोषां घनसम्पातदायिरे घण्टारवप्रियाघ्राणा घृ सन्तुष्टकारिणि घनारिमण्डलाघुर्णाघृताचिघनवेगिने ज्ञानधातो मयि चर्चा चर्चिता चारुभाषिणे चटुला चण्डिका चित्रा चित्रमाल्यां विभूषिता चतुर्भुजा चारुदन्ता चातुरी चरिता चरितप्रदा चुलिका चित्रवस्त्रान्ता चन्द्रमः कर्णकुण्डला चन्द्रहासा चारुधात्री चकूरी चा चन्द्रभाषिणे चन्द्रिका चन्द्रधात्री चौरी चौरा चण्डिका चंदवादिनी चंद्रचूड़ाचोर विनाशिनी चारुचंदिप्तांगी चंदुल चाजिता चारुमध्या चारुगते चंदि चंद्रूपिणी चारु होंम प्रिया चार्वाचरिता चक्रवाहुकाध्यस्था चंद्रमंडल दर्पण चक्रवाका सैष्टा चिद्र चारुलासि विश्वरूपा चन्द्रवती चन्द्रमाश्चन्द्रनिन्दनप्रिया चोदयित्री चिरप्रज्ञा चातकाचारुभेकी क्षत्रियाता छत्रुधरा छाया छन्दः परिच्छदा छाया देवी छिद्रनका छन्दे छिन्द्रियविसर्पे छन्दोनुष्ठु प्रतिष्ठान्ता छिद्रोपद्रवभेदिरी छेदा छत्रेश्वरी छिन्ना छेदनप्रिया दण्डे जन्मरहिता जात बेदा जाह्नवी जटिला जयत्री जरा मरणवर्जिता जम्बूदीपवती ज्वाला जयन्ती जलशालिनी जितेन्द्रिया जितक्रोधां जितं जितामित्रा जगत्प्रियां जातरूपमयी जिह्वा जानकी जगती जरां जनित्रीं जन् जन्नुतनयां जगत्रे ज्वालामुखी जगवते ज्वलग्ने जितुविष्टपा जिताक्रान्तमयि ज्वाला जागृति ज्वरदेवता ज्वर ज्वलन्ती ज्वलदा ज्येष्ठाद्याघोषा स्फोटदिङ्मुखे जम्भनी जिम्भणा जिम्भा ज्वलन्माळिक्यकुण्डला झञ्झिका झणनिर्घोषा ज्ण झंझा मारुतवेगिने झल्लरी वाद्यकुशला रूपायमुजा स्मृताम् टङ्कबाणसमायुक्ता टङ्कणी टङ्कभेदनी तंक टङ्कि गणकृता घोषा टङ्कनीयसमू महोरसा टङ्कारिणी देवी ठठ लामरी शब्दनिरादिरीडाकनीडिम्भा डुण्डुमारैकनिर्जिता डामरी तन्त्रमार्गस्थामड्डमं रुनादिरे डिण्डिर्वसहा डिम्भलसत्क्रीडापरायणा मुण्डिन्विघ्नेशजन्य ढक्काहस्ता हिलिप्रजा नित्यज्ञाना निरुप्मा निर्गुणा नर्मदा नदी त्रिगुणा त्रिपदातन्त्री तुलसी तरुणा तरुण